गणेशपुराणं क्रीडाखण्डम् अध्यायं 56, मुनिरुवाच तौदु रौद्रपुरे रम्यां नरान्तकसभां गतौ सहस्रस्तम्भरुचिरां मणिमुक्ता विभूषिताम् अनेकवीरसम्बाधां नानाश्चर्यवतीं शुभां सदयोजनविस्तीर्णाम् तावदायामसंयुधां नानामणिमये रम्ये आसने स नरान्तकः उपविष्टस्तत्समये तस्यामात्यौ वरासने उभौ गगनसंलेहि मूर्धानौ बलिनां वरौ नत्वातौ वदत शूरश्वबलश्च गुणान् बहून् वक्तव्यं दूतवर्येण यः स्यात् अन्यधा यद अन्यथा दूतदोषः स्यात् स्वमिको पश्च दारुणः श्रुत्वा तत्स्वामिना कार्यं विचार्य स्वहितं शुभम् आवां विनायके विघ्नान्कर्तुं याधपुरीं तु ताम् अधिगुप्ततरौ तत्र स्थितौ बालप्रदीक्षकौ विखण्डोद्दन्तुरश्चाधप्रथमं बालरूपिणौ ताभ्या मालिङ्गदस्तौ स भस्मचक्रे विनायकः पदङ्गश्च विधूलश्च दरव तदः यादौ बालकमुत्क्षिप्तुं शिर आक्रम्यनाशितौ पाषाणरूपी प्रबलः शदधा खण्डितोऽसुरः कामक्रोधौ द्वा वसुरौ रासभं रूपमास्थितौ हुं बालं तु मार्गे तौ चूर्णितौ धरणीतले तद कुण्डीयास्तु वरः कौञ्चरं रूपमास्थितः मार्गमावृत्यसन्तस्थौ तत्कुम्भस्य विदारणात् निहतः क्षणमात्रेण कुमारेण बलेन सह धर्मदत्तगृहं पश्चात् जृम्भिणी हन्धुमागदा नारिकेलेन शिरसि हदा मृत्युमवापसा ज्वालासुरो व्याक्रतुण्डस्तृतीयस्तु विदारणः आगतानाशितुं बालमाद्यो जज्ज्वालतां पुरीम् अन्तः साहाय्यमकरोद्वायुरूपतयास्यः विदार्यास्यं व्याक्रतुण्डो भक्षयच्छिलाञ्जनान् त्रयोऽपि निहतास्तेन बालेनानन्दमायया मेखनामा महादैत्यो निखदो रूपमास्थितः निखदौ मुद्रिकाकादास्तदद्भुतमिवा भवद कूपश्च कन्दरश्चोभौ निखदौ मायिनौ बलाद अम्भासुरोऽन्थकस्तुङ्गो नाशितुम् बालमागदाः एकेनाकारितुं तमो धाराभिर्वपृषे परः अपरस्तुङ्कशिखरो न्यपदद् बालकोपरि महाविहङ्गरूपेण दूरे क्षिप्तास्त्रयोऽपि च तेषां प्रतिकृतिं कर्तुं भ्रमरा नाम राक्षसी आगत भक्षितुं बालं दुष्टाशयवतीशुभा तदुरस्थलमाक्रम्य प्राणां जग्राह विघ्नराट तद आवां तडिद्रूपमास्ताय बालकं गतौ विहन्धुतेन विधृतौ करयोर्बलशालिना कृपा वदा विमुक्तौ च पृष्ट्वा सर्वं चिकीर्षितम् कथयि त्वेदन्तमखिलमागतौ स्वामिनं प्रति एकदा नगरे तत्र सर्वैरेकः समाहृतः भोजनाय च शुक्लेन दरिद्रेण विनायकः विशीर्णमोदनं सह तैलेन प्राग्विभुः पश्चाद्गतो नन्दकायो भोक्तुं सर्वगृहेषु सः सर्वत्र काशीराजेन सहिदो भुभुजे हि सह काशीराजेन मूढेन न ज्ञातं तद्विचेष्टितं स्वामिन्नेतादृशी शक्तिः क्वापि दृष्टा न च श्रुता इदानीं यद्धितं ते जानी वहेन जे दास्य त्रैलोक्ये विद्यते पुमान् मुनिरुवाच एं श्रुत्वा तयोर्वाक्यं प्रज्ज्वालसुरान्तकः वमधिस्ममुखाग्निं विश्वमत्तुं प्रसारिताद कपिरुढानशीलोऽपि न बाधदे क्वचिद ुभ्रुगुडीमुग्रामुवाचस नरान्तकः ग्रासशीलश्च जगरो नम किं ग्रसदे क्वजिद आश्चर्यमचित्ते तु दु भवद्वाक्यादुपागदम् खद्योदो राजदे तावद्ध्यावच्चन्द्रो न दृश्यते चन्द्रोऽपि राजदे तावद् यावत् सूर्यो न दृश्यते न दृश्यते यदा राहुस्तावत्सूर्योऽपि राजदे न दृष्टकलरूपोऽहं तावद् बालो महानयं सकाशिराजं तं बालं जानीयादां दिवं गदम् यत्र ते निगदा दैत्या गतास्तत्र गमिष्यति मुनिरुवाच एवमुक्त्वा समुत्थस्थौ जगर्ज गर्जयन् दिशः शकम्पे पृथिवी सर्वा तद्गर्ज नरवाकुला तदा आज्ञापय सर्वान् वीरान् सज्जीभवन्त्विधि काशिराजस्य नगरीं यामि युद्धाय दंशिदः तस्मिन् वदति सेनेधं सन्नद्धा समुपागदा सर्वशान्तिकरा घोरा च दूरं गध्वजान्विता सैन्येन रजसा सर्वं व्याप्तमासीत् दिगन्तरम् आच्छादिते दिनगरे न प्राज्ञायद किञ्चन पदातयोऽप्यसङ्ख्येया सिन्धूरारुणमस्तकाः उड्डीयोड्डीयदा बन्दो मिथ्या युद्धं प्रजकृरे मुक्तकेशा खड्गहस्ता भृशुण्डी चर्मपाणयः पाषाणद्रुमखड्वाङ्गशक्तिपाशपरा परे कदो ययौ गजानीकं खण्डानादविभूषितं सिन्दूरारुणसद्गण्ढं दन्दावरणराजितं नानाधादु विचित्रोऽनु पर्वतानां व्रजो व्रजन् चीत्कारेण न ददन्तैर्भिन्दन्निव गिरिव्रजम् आधोरणा यदा न स्युस्तदा सर्वे कदम् भवेदोदकेन दुरजप्रशान्तमभवत्तदा अश्वारोहास्तयोर्जग्मुर्मुकुटाटोपमस्तकाः शस्त्रिका चर्मनिस्त्रिंशधनुर्बाणविभूषिताः बृंहितैर्हेषितैर्व्योम कुर्वन्तः सगुणं भृशं कङ्गालैश्च तनुत्राणैस्त्रिशूलैश्च विराजिताः गदामुद्गरपट्टीश्च महापरशुपाणयः चक्रदोमरभस्लासि पाश्यशृणिकराः परे अश्वा अलङ्कृता नानालङ्कारैश्चामरैरपि मनोज वायुवेगाव्यो मयि वाक्रान्तुमिच्छवः वा तद सुवर्णरजतमुक्ता मणिविभूषितं सुवर्णाक्षैर्ध्वजैरुक्तं नानालङ्कृतवाजिभिः पार्तस्वरमहाचक्रं गिङ्गिणीजालमण्डितं महारथी महामात्यौ रथमास्ताय निर्ययौ कृष्णदेहो महाकायो वीरकङ्कणशोभिधः लसत्कुण्डलशुश्रोत्रो महामुकुटमण्डितः मुक्तासुवर्णमालाढ्यो मुद्रिका खड्गमण्डितः केसरागरुगस्तुरीकर्पूराङ्गविलेपनः शुचिरस्त्राणि संस्मार न प्रयुक्तानि कुत्रचिद् वीरावेशेन स बभौ रोगी शोफां गतो यथा नानावादित्रनिर्घोषैर्नादयन्विदिशो दिशः वीरा विनायकं जेतुं दृष्टा गर्जन्ध्यने कषः बृंहितैर्हेशिधैश्वेडैरथनेमिस्वनैरपि निनादं तं समाकर्ण्यत्रस्ता देवाधरीं ययुः एवं नरान्तक का काशीराजस्य नगरीं ययौ श्री गणेशपुराणे नरांतक नकमन नाम षट्त ओ